अथ पञ्चदशोऽध्यायः सौ तिरुवाच मात्रा हि भुजगाः शप्ताः पूर्वम् ब्रह्मविदाम् वर जनमे जयस्य वो यज्ञे भक्ष्यत्यनिलसारथिः तस्य शापस्य शान्त्यर्थम् प्रददौपन्नगोत्तमः स्वसारमृषये तस्मै सुव्रताय महात्मने स प्रतिजग्राह विधिदृष्टेन कर्मणा आस्ति नाम पुत्रश्च तस्याम् यज्ञे महामनाः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 ्रातॄंश्च मातुलांश्चैव तथैवान्यांसपन्नगान् पितृंश्च तारयामास सन्तत्या तपसा तथा व्रतैश्च विविधैर्ब्रह्मान् स्वाध्यायैश्चान्द्रिणोऽभवत् देवांश्च तर्पयामास यज्ञैर्विविध दक्षिणैः ऋषींश्च ब्रह्मचर्येण सन्तत्या अपहृत्य गुरुम् भारम् पितॄणाम् संशितव्रतः जरत्कारुर्गतः स्वर्गम् सहितः स्वैः पितामहैः आस्तीकम् च सुतम् प्राप्य धर्मम् चानुत्तमम् मुनिः जरत्कारुः सुमहता कालेन स्वर्गमेयिवान् एतदाख्यानमास्तीकम् यथावत्कथितम् मया प्रब्रूहि भृगुशार्दूल किमन्यत् कथयामि इति महाभार आदिपर्व आस्तीकर्पाणं प्रस्तावे, प्रस्ताव पंचदशोध्याय